हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमत् अध्यात्मरामायणे युद्धकाण्डे सप्तमः सर्गः श्रीमहादेव उवाच कारनेमिव च श्रुत्वा रावणो मृतसन्निभम् जज्ज्वालक्रोध ताम्राक्ष सर्पीरद्भिरिवाग्निमत् निहन्मि त्वां दुरात्मानम् मच्छासन्नपरङ्मुखम् परै किञ्चित् गृहीत्वा त्वम् भाषते राम किङ्करः कारणेमि उवाचेदम् रावणम् देव किं क्रुधा नो रचिते ममे वचनम् यदि गत्वा करोमि तम् इत्युक्त्वा प्रयो शीघ्रम् कारणेमि महासुरः हनुवयद्विघ्नकारणात् स गत्वा हिमवत् पार्श्वं तपवानं न कल्पयत् तत्र शिष्यै परिवृतो मुनिवेश धरकलकलः गच्छतो मार्गमासाध्य वायु सोनोर्महात्मनः ततो गत्वा शुभं चिन्तयामास मनसा श्रीमान् पवनन्दनः पुराणदृष्टमेतन्मे मुनिमण्डलमुत्तमं मार्गो विभ्रंसितो वा मे भ्रमो वा चित्तसम्भवः यद्वा विशाश्रमपदं वी... दृष्ट्वा मुनिं विशेषतः पित्वा जलं ततोयामि द्रोणाचलमनुत्तमम् इत्युक्त्वा प्रविवेशाथ सर्वतो योजनायतम् आश्रमं कदलीशाल खर्जूर पनसादिभिः समावृतं पक्वफलै नम्रशाखै च पादपै वैरभाव विनिर्मुक्तं शुद्धं निर्मललक्षणं तस्मिन् महाश्रमे रम्ये कालनेमि स राक्षसः इन्द्रयोगं समास्थाय चकार शिव पूजनम् हनुमानभिवाद्याः गौरवेण महासुरम् भगवन् रामदूतोऽहम् हनुमान् नाम नामतः रामकार्येण मता किराब्धिं गन्तुमुद्यतः तृषा मां बाधते ब्रह्मन् उदकं कुत्र विद्यते यथेच्छं पातुमिच्छामि कथ्यतां मे मुनीश्वर तच्छ्रुत्वा मारुतेर्वाक्यं कालनेमि समब्रवीत् कमण्डलो गतं तोयम् मम त्वं पातुमर्हसि भुङ्क्व चेमानि पक्वानि फलानि तदनन्तरं निवसस्व सुखेनात्र निद्रा मेहि त्वरास्तुमा भूतं भव्यं भविष्यं च जानामि तपसा स्वयम् उत्थितो लक्ष्मणः सर्वे वानरा तच्छ्रुत्वा हनुमानः कमण्डलूजले न भे न शाम्यतिधिका तृष्णा ततो दर्शय मे जलम् तथेत्याज्ञापयामास वटुं माया विकल्पितम् वटु दर्शय वितीर्णम् जलाशयं निमील्य चाक्षणीतो पीत्वा गच्छन्ति उपदीक्षामि ते मन्त्रम् येन द्रक्ष्यति चौषधि तथेति दर्शितं शीघ्रं बटुरा सलिलाशयं प्रविश्य हनुमान्तोयम् अपि वन्मिलिते क्षणः तत मायामःकपिम् अग्रसत्तं महा वेगान् मारुतिं घोररूपिणी तदो ददश्च हनुमान् क्रसन्तीं मकरीं वृष धारयामासहस्ताभ्यां वदनं सा ममारहे ततोऽन्तरिक्षे दृजे दिव्यरूप धरङ्गन धान्यमालीति विख्याता हनुमन्तं मथाब्रवीत् तत्प्रसादादं चापात् विमुक्तासि कपीश्वरः सप्ताहं मुनिना पूर्वम् अप्सरः कारणान्तरे आश्रबे यत्तु ते दृष्टे कारणे मे महासुरः रावणप्रहितो मार्गे विघ्नं कर्तुं तवानघ मुनिवेश धरो नाशो मुनिर्विप्रविहिंसकः जहि दुष्टं गच्छ शीघ्रम् द्रोणाचलम् अनुत्तमं गच्छाम्यहं ब्रह्मलोकम् तत्पर्शात् हत कर्म च इत्युक्त्वा साययो स्वर्गम् हनुमानप्यथाश्रमम् आगतं तं समालोक्य कालने मीरभाषत किं विलम्बे न तव वा नरसत्तम् गृहाण मत्तो मन्त्रम् देहि मे गुरुदक्षिणाम् इत्युक्तो हनुमान् मुष्टिम् दृढम् बद्वाह राक्षसम् ग्रहाण दक्षिणामेताम् इत्युक्त्वा निजघानतम् विसृज्य मुनिवेशंस काल ने मे महासुरः युयुधे वायुपुत्रेण नाना दूतोषौ हनुमान्मायिनां रिपुः जघानीर्षी भग्नमूर्धा मम आरस तत् गत्वा दृष्ट्वा द्रोणं महागिरिं दृष्ट्वा चौषधि तत्र क्षीरिम् उत्पाट्य सत्र गृहीत्वा वायुवेगेन गत्वा सन्निधिम् उवाच हनुमान् रामम् आनीतोऽयं महागिरिः यद्युक्तं कुरु देवेश विलम्बो नात्र युज्यते श्रुत्वा हनुमतो वाक्यं रामः सन्तुष्टमानसः गृहीत्वा चौषधि शीघ्रम् सुशेषण महामतिः चिकित्सां कारयामास लक्ष्मणाय महात्मने तत् सुप्तो बुद्ध्वा प्रोवाच लक्ष्मणः तिष्ठ तिष्ठ क्व गन्तासि अन्वेदानिं दशानन्द इति ब्रुवन्तम् वग्राय मूर्ध्यवध्राय राघवे मारुतिं प्राहवत्साध्य तत्प्रसादान् महाकपे निरामयं प्रपश्यामि लक्ष्मणं भ्रातरम् मम इत्युक्त्वा वानरैः सुग्रीव सम विभीषण मतन युद्धा सामस्थि पाषाण पाद पर्वताग्रहर युद्धायामुखा भूत ये युत्सव रावण विव्यथे राणर्विद महासुर मातंग सिंह गरुड़ जा राघवेण महात्मनः सिंहासने समाविश्य राक्षसान् निदमब्रवीत् मानुषेणैव मे मृत्युम् अह पूर्वम् पितामह मानुषो हि न मामन्तुम् शक्तोस्ति भुवि कश्चन ततो नारायणसाक्षान् मानुषो भून्न संशयः रामोदाश्रुचिर्भूत्वा मां हन्तुं सुमुपस्थितः अनरण्येन यत्पूर्वं शप्तोऽहं राक्षसेश्वर उत्पत्स्यते च मद्वोंशी परमात्मा सनातनः तेन तं पुत्रपौत्रै च बान्धवै च समन्वितः हनिष्यसि न इत्युक्त्वा मां दिवं गतः सेव रामः सञ्जातो मदर्थे मां हनिष्यति कुम्भकर्ण तु मूढात्मा सदा निद्रावश्यं गतः तं विबोध्य महासत्वम् आनयन्तु ममान्तिकम् इत्युक्तास्ति महाकाय तूर्णम् गत्वा तु यत्नतः विबोध्य कुम्भश्रवणम् निन्यो रावणसन्निधिम् नमस्कृत्य स राजानम् आसनोपरिसंस्थितः म्बाः रावणो राजा भ्रातरं दीनय गिर कुम्भकर्ण निबोधम् महत् कष्टम् उपस्थितम् रामेण नेता शूरा पुत्रा पौत्रा च बान्धवा किं कर्तव्यम् इदानीत् मे मृत्युकाल उपस्थिते एष समुद्रं च मूलम् न परिकृन्तति ये राक्षसा मुख्यतमा तैः ता वानरे युधि वानराणां क्षयं युद्धे न पश्यामि कदाचन नाचेत् महाबाहु यदर्थम् परिबोधितः भ्रातुरर्थे महासत्वे। कुरुकर्म सुदुष्करम् श्रुत्वा तद् वचनं परिदेवितम् कुम्भकर्णो जा शोचै वचनं चेदमब्रवीत् पुरा मन्त्र विचारेते गदितं यन्मया नृप तदद्य त्वाम् प्रगतम् फलं कर्मणः पूर्वमेव मया प्रोक्तो रामो नारायण परह। सीता च योगमायेति बोधितोऽपि एकदाहम् एसानौ विशालायां स्थितो निशि दृष्टो मया मुनि साक्षान् नाराय नारदो दिव्यदर्शन तमब्रह्म भग कुतो गन्तासि मे वद इत्यतो नारदप्रह देवानां मन्त्रणे स्थितः तत्र उत्पन्नं ते वक्ष्यामि शृणु तत्त्वतः युवाभ्याम् पीडिता देवा सर्वे विष्णुमुपागतः ऊष्ठु स्ते देवदेवेशम् स्तुत्वा भक्त्या समाहितः जहि रावणमक्षोभ्यम् देवत्रैलोक्यकण्डकम् मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुर अतः मानुषो भूत्वा जहि रावणकण्डकम् तथेत्याह महाविष्णु सत्यसङ्कल्प ईश्वरः दातो रघुकुले देवो राम इत्यभितः स हनेशतीवः सर्वान् इत्युक्त्वा त्व अतो जाने रामम् त्वम् परम् ब्रह्म सनातनम् त्यज वैरम् भज स्वाध्य भजतो भक्तिभावेन प्रसिद्धति रघुत्तमः भक्ति जनित्रिज्ञानस्य भक्ति मोक्षप्रदायिनी भक्तिहीनेन यत्किञ्चित् कृतं सर्वम् असत्तमम् अवतार सुबहवो विष्णु लीलानुकारिणः तेषां सहस्रसदृशो रामो ज्ञानमय शिवः रामम् भजन्ति निपुणा मनसा वचशा निशम् अनायासेन संसारम् तीत्वा यान्ति स हरे पदम् ये राममेव सततं भुविशुद्ध्यायन्ति तस्य चरितानि पठन्ति सन्त मुक्ता सैव भवभोगमः पाशे सीतापते पदमनन्त सुखं प्रयान्ति इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे सप्तमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु